हरि ओम् श्रीसीतारामचन्द्राभ्यम् नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे षण्णवतितमः सर्गः सुग्रीवेण राक्षसेनाया संहारो विरूपाक्षस्य वधश्च तथा ते कृतगात्व तु दशग्रीवेण मार्गणैः बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तरा रावणस्याप्रसह्यं तं शरसम्पातमेकतः न शेकुसहितं दीप्तम् पतङ्गज्वलनं यथा तेता निशितै बाणै रोशन्तो विप्रदुद्रूः पावकाची समाविष्टा दह्यमाना यथा गजः प्लवङ्गानामनेकानि महाभ्राणीव मारुतह संयौ समरेतस्मिन् विधमन् रावणः शरैः कदनं तरसा कृत्वा राक्षसेन्द्रो वनोकसाम् आससाद् ततो युद्धे त्वरितं राघवं रणे सुग्रीवस्ता कपीं दृष्टि भग्नाद्रावितता रे गुलमे सुषेण निक्षिप्य चक्रे युद्धे दुत मन आत्म सदृश वीरम स तम निक्षिप्य नाम सुग्रीवभिमुखम शु प्रतस्थे पादयु पाश पृष्ठत सर्वे वा नरयूथपः अनुजग्मो महरशैलान् विविधा च वनस्पति ननर्ध युधि सुग्रीव स्वरेण महता महान् पोथयन् विविधा चान्यान् ममोत्तमराक्षसान् ममर्ध च राक्षसान् वा नरेश्वरः युगान्तसमये प्रवृद्धा निगमानिव राक्षसानाम् अनेकेषु शैलवर्षम् वर्षः अश्मवर्षं यथा मेघ पक्षिसङ्घेषु कानने कपिराजविमुक्तस्ते शैलवर्षेस्तु राक्षसः विकीर्णा शिरसपेतु विकीर्णा पर्वतः अथ सञ्चीयमाणेषु राक्षसु समत सुग्रीवेण प्रभग्नेश पतत्सु विरूपाक्ष सकना धन विश्राव्य राक्षस र्लुत्य दुर्दश गजस्कृत रूह सतम दीपमुह्य विक्षक्षो महाबल न नर्द भीमन्दि रादम् वानरान्नभ्यधावत् सुग्रीवे सशरान् घोरान् विसदर्ज च मुमुखे स्थापयामास चोद्विघ्नान् रक्षसान् सम्प्रहर्षयन् सोतिविद्ध रशिते बाणै कपीन्द्रस्ते न रक्षसा चुक्रोश च महाक्रोधो वधे चास्य मनोदधे ततः पादपमुद्धृत्य शूरः सम्प्रदनो हरिः अभिपत्य जगानास्य प्रमुखे तं महागजम् स तु प्रहाराभिहत सुग्रीवेण महागजः अपासर्प धनुर्मातरम् निशसाद ननाद च गजातु मथितात् तूर्णम् अपक्रम्य रक्षितोभिमुखशत्रुम् प्रत्युद्गम्य तथा कपिम् आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः भर्स्ययन्निव सुग्रीवम् आससादव्यवस्थितम् स हि तस्याभिसंगृद्ध प्रगृह्य विपुलां शिलां विरूपाक्षस्य चिक्षेप सुग्रीवो स ताम् शिलाम् आपतन्तीम् दृष्ट्वा राक्षसपुङ्गवः अपक्रम्य सुविक्रान्त खड्गेन प्राहरत्तदा तेन खड्गप्रहारेण राक्षसा बलिनाहतः सुमहर्तम् अभवत् भूमौ विसञ्ज्य इव वानरः सहसा स तदोत्पत्य राक्षसस्य महाहवे मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचर तेन खड्गेन संक्रुध सुग्रीवस्य चमोमुखे कवचम् पातयामास पद्भ्यान्नभिहतो पतन् समुत्थाय पतितः कपिस्तस्य विसर्जयत् तल अशने समानं भीमन्निस्वर्नम् तलप्रहारम् तद्रक्षे सुग्रीवेण समुद्यतम् नैपुण्यान्मोचयित्वैनम् मुष्टिनो रसि ताडयेत् ततस्तु सङ्क्रुद्धतरः सुग्रीभो वा मोक्षितं चात्मनो दृष्ट्वा प्रहारम् तेन रक्षस सदर्शान्तरम् तस्य विरूपाक्षस्य वानरः ततोऽन्यम् पातयत् क्रोधात् शङ्खदेशे महातलम् महेन्द्राशनिकल्पेन तलेनाभी हतः पपात रुधिरक्लिन्न शोणितम् हितमुद्गिरन् श्रोतोभ्यस्तु विरूपाक्षो जलम् प्रस्रवणादिव विवृत्त नयनम् क्रोधात् सफेनम् रुधिराप्लुतम् ददृशु ते विरूपाक्षम् विरूपाक्षतरम् कृतम् स्फुरन्तम् परिवर्तन्तम् पार्श्वे न रुधिरोक्षितम् करुणम् च विनर्दन्तम् ददृशु कपयोरिपम् तथा तु तौ संयति सम्प्रयुक्तौ सरस्विनो वा न राक्षसानाम् बलार्णवो सरस्वनतुश्च भीमो महार्णवो द्वौ विव भिन्नसेतु विनाशितम् हरिपार्थिवेन बलं समेतं कपिराक्षसानाम् उद्वृत्त गङ्गा प्रतिमम् बभूव इत्याख्ये श्रीमद् रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चण्डवतीतमः सर्गे श्रीसीतारामचन्द्रार्पणमस्तु